श्रीमद्भागवतमहापुराणं चतुर्थस्कन्द अथैकोनविंशोऽध्यायः मैत्रेवाच अथा दीक्षतराजातो है मेधसतेन स ब्रह्मावर्ते मनोक्षेत्रे यत्र प्राची सरस्वती तदभिप्रेत्य भगवान् कर्मातिषयमात्मनः सदक्रतुर्नृषे पितुर्यज्ञमहोत्सवम् यत्र यज्ञपतिः साक्षात् भगवान् हरिश्वरः अन्नभूयत्सर्वात्मा सर्वलोकगुरुप्रभो अन्वितो ब्रह्मसर्वाभ्यां लोकपालैः सहालुगै तपकीयमानो गन्धर्व्यै मुनिभिश्चाप्सरोगुणैः सिद्धा विद्याधरा देत्या दानमाकुयिकादयः दे सुनन्दनन्दप्रमुखा पार्षदप्रवराहरेः कपिलो नारदो दत्तो योगे शासनकादयः तमन्वीयोर्भागवतां ये च तत्सेवनोत्सुखाः यद्धर्मदुघा भूमि सर्वकामदुघा सती दोग्धीष्माभीप्सितानां नर्थान् यजमानस्य भारत भू सर्वरसान्नद्य क्षीरदध्यन्न गोरसान् तर्वो भूरिवर्ष्मान् प्रासूयन्तमधुच्युतः सिन्धवो रत्ननिकराणं गिर्योन्नं चतुर्विधम् उपायनमुपाजुः सर्वे लोकासपालकाः इति साधोऽक्षजे सस्य पितो सुपरमोदयम् असूयन् भगवानिन्द्र प्रतिघातमचीकरत् सर्वे नास्वमेथेन यजमाने यजुस्पतिं वैद्ये यज्ञपदं स्वर्धन्नपो वाहतिरोहितः तमत्रे भगवानैक्षन्तर्वान्तर्माणं विहाय सा आक्तिमेव पाखण्डं यो धर्मे धर्मविभ्रम अत्रिणाचोदितो हन्तुम् पृथुपुत्रो महारथ अन्वधावत् सङ्क्रुद्ध तिष्ठतिष्ठेति चाब्रवी तं ताजिसां कृतिम् वीक्ष्य मेडे धर्मम् शरीरिणम् जटिलम् भस्मनाच्छिन्नम् तस्मै वधा निमृतं तं भूयो हन्तवे त्रीरचोदयत् जहि यज्ञहनं तात महेंद्रं विबुधाधमम् एवं वैन्यसितः प्रोक्तं माणं विहायसा अन्नद्रवधियं धिक्रुद्धो रावणं गृध्राडिव सोष्वं रूपं च तद्धित्वा तस्मा अन्तर्हितसुराट् वीरस्वपशुमादाय पतिर्यज्ञमुपेवान् तत्तस्य चाद्भुतं कर्म विचक्ष्व परमर्शय नामधेयम् दुदुस्तस्मै विजिताश्व इति प्रभो उपसृज्य तमस्तिभ्रं जहाराश्वम् पुनर्हरे च सालयोपतच्छन्दो हिरण्यदर्शनं विभु अत्रिसन्दर्शयामासतरमाणम् विहायसाम् कपालखड्वाङ्गधरं वीरो नैनममाधत् अत्रिणा चोदितस्तस्मै सन्दते विशुखं वृषा सोष्मं रूपं च तद्भिद्वान्तस्थावन्तर्हितस्वराट् वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत् हरे रूपं हरेरूपं जगृहिर्ज्ञानदुर्बलाः ज्ञानिरूपाणि जिगृहे इन्द्रो हे जिशीर्षया तानि पापस्य खण्डानि लिङ्गं खण्डमिहोच्यते एवमिन्द्रे हरत्यस्त्वं दैन्ययज्ञजिकांशयां तद्गृहीतविशिष्टेषु उपाखण्डेषु मतॄणां धर्म इत्योपधर्मेषु नग्नरक्तपटादिषु प्रायेण संयते भ्रान्त्या पेसलेषु च तदभिज्ञाय भगवान् पृथो पृथुपराक्रमः इन्द्राय कुपितो बाणम् आदत्तोऽद्यत कार्मुकः तामृत्विज शक्रवधाभिसन्धितं विचक्षुष्प्रेक्षमसैय्यरंहसं निवारयामासुरो महामते न युज्यते त्राण्यपद वयं मरुद्वन्तमिहासनासनं हयामहे त्वजवसाहतद्विषाम् आयातयामोपभमम्बैरनन्तरं तथय्य राजन् जुहुवामते हितम् इत्यामन्त्रं कृतुपतिं विदुरास्य विजोरुषां स्नुग्धं स्नुग्धं ताजुवतोऽभ्येत्य स्वयं वो प्रत्यसेधत न बध्यो भवतामिन्द्रो यज्ञो भगवन्तनुः यज्ञिघांसति यज्ञेन यस्येष्टास्तु नवगुरासुराः तदिदं पश्यतु महद्धर्मं व्यतिकरं द्विजाः इन्द्रेणानुष्ठितं राज्ञकरमेतद्बीजिघांसताम् पृथुः कृते पृथोर्भूयात्तर्हे को न सतक्रतुः अलं ते क्रतुविस्पृष्टये यद्भवान् मो मौ, मोक्षधर्मवे नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसे उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ मास्मिन् महाराज कृता चिन्तां निशामया स्मद्वच यध्यायतो दैवहतं नु कर्तुं मनोतिरुष्टं विशते तमोन्दं चतुर्विरमतां मेष देवे सुर्वग्रह धर्मावृतिकरो यत्र पाखण्डैरिन्द्रनिर्मितैः एभिरिन्द्रोपसंशिष्टैर्पाखण्डैर्हारिबिम्भिर्जनं हियमाणं विचक्षैणं यस्ते यज्ञधृगस्व भवान् परित्रात्मिहावर्तिर्णो धर्मं जनानां समयानुरूपं वेनापचारादवलुप्तमद्य तद्देहतो विष्णुकलाशिवैन्य स त्वं विमिष्या शुभवं प्रजापते सङ्कल्पनं विश्वसुजां पिपीप्रहीम् ऐन्द्रिं च मायामुपधर्ममातरं प्रचण्डपाखण्डपथं प्रभो जहे मैत्रीवाच इत्थं शलोकगुरुणा समादिष्टो विशां पतिः तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे कृतवं कृतावभृतस्नानाय पृथिवे भूरिकर्मले वरान् ददंस्ते वरदा ये तद्बर्हीर्षीतर्पिताः निप्रा सत्यासिधस्तुष्टा श्रद्धया लब्धदक्षिणाः आशिषो युजो षद राजिराजाय तयाहुता तया हुता महाबाहो सर्व एव समागताः पूजितादानमानाभ्यां पितृदेव ऋषिमानवाः चै श्रीमद्भागुते महापुराणे प्रहंसां चैतायां तत्स्कन्धे पृथिवीं पृथुविजे एकोनविंशोऽध्यायः